आनो ओ आनो अभद्राः क्रतभोजन्तु विश्वतो दब्धासो अपरीतास स उद्भिदाः देवानो यथा स दविद्वृधे असन्नप्रा आजुवो रक्षितारो अवे दिवे, दिवे। देवानाम् भद्रासुमतिरजूयताम् देवानाम् रातिरभिनो निवर्तताम् देवानाम् सख्यमुपसेदि मा वयन् देवान आजुः जीवसे पूर्वजा निविदा आहुमहेवजम् भगम् मित्रमदितिम् दक्षमस्रिधम् हर्यवणम् वरुणम् वरुणं सरस्वतीनः सुभगामयस्करत् तन्नो वातो ओभजो भुवा आतुभे यजन्तन् माता पृथिवी तत्पिताद्योः तद्ग्रावा आडःसो वसुतो ओभजो भुवस्तदश्विना शृणुतन्धिष्ट्याजुवम् तमीषा आनम् जगतस्तस्थुषस्पतिम् धियम् जिन्वम वसे स्वस्ति न इन्द्रो ओवृद्धश्रव स्वस्ति नः पूजा विश्वमे एदाः स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिस्वस्ति नो बृहस्पतिर्दधातु पृषदश्वा मरुतः पृश्निमातरः शुभञ्यावा नो विदधे एषु जग्मजः अग्निजिह्वामनवस्रूरचक्षसो विश्वे एनो देवा अवसागमह्निः भद्रम् कर्णे एभिः शृणुजामदेव भद्रम् पश्ये वाच्यभिर्जत्राः स्थिरैरङ्गैस्तुष्टुवांसस्तनोभिर्व्याचेव देवहितदायोः शतमिन्नु शरदो अन्तिदेवाजत्रा नश्चक्राजरसन्तनूना पुत्रासो यत्र पितरो भवन्ति मानो ओ बध्यारी ऐनिशता जुर्गन्तोः अदितिर्दौरदितिरन्तरिक्षमदितिर्भाता स पिता स विश्वे एदेव अतिथिः पञ्च जना अतिदिर्जातमदितिर्जदित्वम् ओम् शान्तिः शान्तिः शान्तिः